त्रिंशदधिक शत तमोऽध्यायः वैशम्पायनो उवाच ततो द्रुपदमासाद्य भारद्वाजः प्रतापवान् अब्रवीत् पार्थिवम् राजन् सखायम् विद्धि मामिह इत्येवमुक्तः जनेश्वर भारद्वाजेन पाञ्चालो नामृष्यत वचोऽस्य तत् सक्रोधामर्ष जिह्मभ्रूः कषायीकृत लोचनः अकृतेयम् तव प्रज्ञा ब्रह्मन्नाति समञ्जसा यन्माम् ब्रवीषि प्रसभं सखातेऽहमिति द्विज न हि राज्ञामुदीर्णानाम् एवम्भूतेर्नरे क्वचित् सख्यम् भवति मन्दात्मन् श्रिया हीनैर्धनच्युतैः सौहृदान्यपि जीर्यन्ते कालेन परिजीर्यत सौहृदम् मे त्वया ह्यासीत् पूर्वम् लोके हृदि कालो ह्येनम् विहरति क्रोधो वैनम् हरत्युत मैवम् जीर्णमुपास्व त्वम् सख्यम् भव त्वपाकृधि आसीत् सख्यम् द्विज श्रेष्ठ त्वयामेद्धनि वसुमतो ना विद्वान् विदुषः सखा न किमिष्यते ययोरेव समम् वित्तम् ययोरेव समम् श्रुतम् जा पार्थिवस्यापि सखि किमिष्यते वैशम्पाय न उवाच द्रुपदेनैव मुक्तस्तु भारद्वाचः प्रतापवान् मुहूर्तम् तु मन्युनाभि परिप्लुतः स विनिश्चित्य मनसा पाञ्चालम् प्रति बुद्धिमान् जगाम कुरु मुख्यानाम् नगरम् नागसाह्वयम् स नागपुरमागम्य गौतमस्य ततोऽस्य तनुजः पार्थान् कृपस्यानन्तरम् प्रभुः अस्त्राणि शिक्षयामासना बुध्यन्त च तम् जनाः एवम् स तत्र गूढात्मा कञ्चित् कालमुवासः कुमारास्त्वथ क्रीडन्तो बीटया तत्र वीराः पर्यचरन् मुदा पपात वै क्रीडताम् तदा ततस्ते यत्नमातिष्ठन् वीटामुद्धर्तुमादृताः नचते च ते प्रत्यपद्यन्त कर्म वीटोपलब्धये ततोऽन्योन्यमवैक्ष्यन्त व्रीडयावनताननाः तस्यायोगमविन्दन्तो भृशम् चोत्कण्ठिता भवन् ते पश्यन् ब्राह्मणम् श्याममापन्नम् पलितम् कृशम् कृत्यवन्तमदूरस्थम् अग्निहोत्र पुरस्कृतम् ते तम् दृष्ट्वा महात्मानमुपगम्य अथ द्रोणः कुमारांस्ताम् दृष्ट्वा कृत्यवतस्तदा प्रहस्य मन्दम् पैशल्यात् अभ्यभाषत वीर्यवान् अहो वोधिक्बलम् क्षात्रम् धिगेताम् वक्रतास्त्रताम् भरतस्यान्वये जाता ये वीटाम् नाधिगच्छत वीटाञ्च मुद्रिकाञ्चैव ह्यहमेतदपि कूपे निरुदके तस्मिन्नपात यदरिन्दमः ततोऽब्रवीत् तदा द्रोणम् कुन्तीपुत्रो युधिष्ठिर